मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 25 फैव् मत्सरासुरसमागमम् श्रीगणेशाय नमः मुद्गल उवाच मत्सरासुरमुग्रं तं तापः सं प्रभो बोधयामासतं मासतं दानवेन्द्रं महाबलं शङ्कर उवाच भोभो भो, भो मत्सरचोत्तिष्ठ वरान्वरय सुव्रद तवोग्रतपसा भक्रिया सन्तुष्टोऽकं ददामितान तान् अहो धैर्यमहो धैर्यं धन्यं ते तापसोत्तम देहभावमधिक्रम्यस्तितोऽसि भावमदिक्रम्यस्तिदोसि क्लेशं त्यजतपोजातं सिद्धिं प्राप्तां तपोभुवं पश्येच्छसि तथा यं यं तं तं दास्यामि दुर्लभं शिवस्य वचनं श्रुत्वा प्रबुद्धो मत्सरासुरः उन्मील्य लोचनेश्य शंकर पुधस्थित शिवदर्शनमेण सत्तावत्ल उधारम नमस्कृत्य विनम्र प्रेम विह्वल उवाच त महाबुद्धिशिव कल्याणकारक भक्तानां कल्पवृक्षं च पार्वतीसहितं प्रभुं मत्सरासुर उवाच धन्यो वंशो मदीयोद्य जन्मसम्पत्तिशास्त्रजं ज्ञानं मे जनको माता तपो धन्यं महत्प्रभो मुनयोऽयं न जानन्ति योगिनो ध्यानशालिनः वेदास्मृतिसमायुक्तास्तं पश्यामि सदाशिवम् एवमुक्त्वा नमस्कृत्य पूजयामा सहर्षतः ऋषिदेवयुधं शम्भु भक्तिभावसमन्वितः यथाविधिसम्पूज्य शङ्करं दण्डवत्क्षितौ प्रणपत्यसमुद्धाय प्राञ्चलिस्तोत्रमाकरोद मत्सरासुर उवाच नमस्ते त्रिदशेशाय शङ्कराय शिवाय च निर्गुणाय गुणानां चेशाय सर्वगुणाय ते अपाराय महादेव पिनाकधरते नमः नमो नमो महेशाय सर्वाधिपतये नमः उमाकान्तनमस्तुभ्यं भक्तसंरक्षकाय च भक्तिप्रियाय देवाय सर्पहारायते ते नमः वृषध्वजाय नन्दीश वाकनाय त्रिशूलिने भस्मांगरा भस्रागधराय व्याक्राबरधराय बाचंद्रनमस्तुभ्य पंच वक्ताय शशबरालिने जडाजोड़धरा नमो गङ्गाधराय ते गिरिशाय नमस्तुभ्यं गजचर्मधरायते सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने निराधाराय नित्याय पदये नमः अपारगुणधाराय रुद्राय तु नमो नमः किं स्तौ मि त्वां महादेव यत्र वेदा विकुण्ठिताः यदि महेशानं मत्सरप्रणानामदं, उद्धृतं तं शिवप्राह वरं वरय सुह्रद इदं त्वया कृतं स्तोत्रम् मम प्रीतिविवर्धनं पठदे शृण्वदे सर्वकामदं प्रभविष्यति विद्यामायुस्सुखं राज्यं पुत्रपौत्राधिकं च यद् भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेण स्तुवदे सुर स्तु शिववचोरम्यं प्रहृष्टो मत्सरोऽब्रवीद विनयावनदो भूत्वा शिवं भक्तवरप्रदं मत्सर उवाच यदि देवे सतुष्टोऽसि यदि दास्यसि मे वरान् तदा भयं ते सर्वत्र भक्तिं देहि सदाशिव पञ्चभूतात्मकं सर्वं त्रिगुणै सुविराजितं तस्मान्मे मरणं शम्भो न कदाचित् भवेदिह आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतं ब्रह्माण्डस्य च राज्यं मे देहि देहि मुद्गल उवाच तस्यै तद्वचनश्रुत्वा शिवो विस्मितमानसः देवासर्षिगणाः सर्वे विस्मिता प्राभवन् तदा किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति तपःसोऽग्रेण सन्तुष्टशिवस्तं प्रत्युवाचः शिव उवाच यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति उग्रेण तपसा तुभ्यं मया दत्तम् सुदुर्लभम् मुद्गल उवाच वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमद हर्षितो हर्षयन् सर्वान् सुहृदो मादरं स्त्रियम् आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः नानाभोगान् प्रभुञ्जानः सुहृद्भयः सुखदायकः पुत्रौ मतपरायां द्वौ तुल्यौ पित्रा वीर्येण तेजसा सुन्दरप्रिय इत्येवं नाम ज्येष्ठस्य सोकरोद विषयप्रियनामभूत् कनिष्ठप्रीदिदः परः एकस्मिन् दिवसे दैत्यश्वशुरस्य गृहं गतः तत्र नानाविधा मिलितास्तमबोधयन् दैत्या किं स्थितोऽसि महातेजस्त्वदस्य वशगा वयं जेष्यामः सर्वदेवादीं त्वत्साखाय्येन मत्सर त्वत्समो नैव वीरोऽस्ति ब्रह्माण्डे कुत्रचित् प्रभो वरदानबलाढ्यस्त्वं निर्भयोऽसि महासुर ज्ञां दहि गमिष्यामो जेतुं देवान्न संशयः शस्त्रास्त्रायस्तान्विनिर्भिद्य भवामस्वर्गभोगिनः मुद्गल उवाच दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाचः भवद्भिः कथितं सर्वं हृदकारकमुत्तमम् ममापि हृदये नित्यमेवं वसति दानवाः किं करोमि च मेमादा निवारयदि मां सदा इन्द्रस्ते स पिता पुत्र देवापूज्या सवा धर्मेण वर्तस्व येनेह परलोकभाक् मत्सरस्य वच श्रुत्वा दैत्यास्तेत्त्वब्रुवन्वचः अखिलं धर्मकरणं बाधादं भावपूर्वकं दैत्या ऊचुः शृणु मत्सरवृत्तान्तं पुराभूतं स्वधर्मजम् अस्माकमेव मान्यं यत्तव संशयनाशकम् जलन्धरसमुत्पन्नः शिववीर्यान्महाबलः तेन शम्भुर्जितः संख्ये देवाः सर्वे च निर्जिताः पार्वतीं दारभावार्थं ग्रहीतुं तूद्यतो भवेद् दैत्या एतादृशा जाता बहवो मत्सरासुरा यत्र मान्याः सन्ति देवास्तत्र दैत्या प्रदूषिताः दैत्या मान्यास्तदा देवा दूषिताः प्रभवन्ति वै देवेन्द्रा शत्र दैत्यानां सततं प्रभो अत त्यक्त्वा स्वसन्देहं जय देवान् महाबला त्यजता मुनि मुनिदेवसहायिनीं वसात्र त्वं महाभाग अस्माभिस्सहितः सदा तेषां वचनमाकर्ण्य मत्सरोहितकारकं तथैव कृतवांस्तत्र त्यक्त्वा पृथ्वीमुवासः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ओ